यणीयं दशकम् एय्टि नैन् मल्टिपल् प्रमा जाने जाने यदिह तव भक्तेषु विभवो न सद्य सम्पद्यस्तदिह मदकृत्वा दशमिनां प्रशान्तिं कृत्वैव प्रदिशसि तदकामखिलं प्रशान्तेषु क्षिप्रम् न खलु भवदीयेच्युदिकथा सद्यः प्रसादरुषितान्विधिशङ्करादीन् के जिद्विभो निजगुणानुगुणं भजन्तः भ्रष्टा भवन्ति बदकष्टमदीर्घदृष्ट्या स्पष्टं मृकासुर उदाहरणं किलास्मिन् शकुनिजः नारदमेकदा त्वरि ततोषमपृच्छदधीश्वरं सचदिदेश च दिदेशगिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु तपस्तप्त्वा घोरं स खलु कुपितः सप्तमदिने शिरश्चित्वा सद्यः पुरहरमुपस्थाप्य पुरतः अधिक्षुद्रं रौद्रं शिरसि करदानेन निधनं जगन्नाथाद्व्रे भवति विमुखानां क्वशुभधीः मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोधरुद्रं दैत्याद्भीत्यास्म देवो दिशि दिशि वलते पृष्टतो दत्तदृष्टिः तूक्ष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य सर्वं। दूरा देवाग्रतस्त्वम् पटुपटु वपुषा तस्तिषे दानवाय भद्रम् तेषा कुने यभ्रमसि किमधुना त्वम् पिशाचस्य वाचा सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्गमौलौ युद्धं त्वद्वाक्यमूढः शिरसि कृतकरः सोपतश्चिन्नपादं भ्रंशो ह्येवम् परोपासिदुरपि च गतिशूलिनोऽपि त्वमेव भृगुम् किलसरस्वतीनिकडवासिनस्तापः सास्त्रिमूर्तिषु समादिशन्नधिकसत्वदां वेदितुम् अयं पुनरनादरादुदिदरुद्ध रोशे विधौ हरेपिज जिहिंसिषौ गिरिजया हृदे त्वामगाद सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वाम् विप्रे विनिघ्नदिपदेन मुदोद्धितस्त्वम् सर्वं क्षमस्वमुनिवर्यभवेत् सदा मे त्वत्पादचिह्नमिह भजामह सक्तोच्चतु व्यय भजत्सृष्ट्याद्वागमनिवस्तं विष्णो सचिपरम वुषं परूमन पशु वनितावीताप्राध्यवनपुरवासी पीभे सर्वत्र नाम सङ्कीर्तनं गोविन्द गोविन्द